श्रीहरगे नमः अथ सप्तदशोऽध्यायः उद्धव उवाच धर्मस्त्व भक्तिलक्षणः वर्णाश्रम् आचरवतां सर्वेषां द्विभथामपि यथानुष्ठीयमानेन त्वयि भक्तिर्नृणां भवेत् स्वधर्मेणारविन्दाक्ष तत्समाख्यातुमर्हसे पुरा किल धर्मं परमकं प्रभो यत्तेन हंसरूपेण ब्रह्मणेभ्य तमाधव स इदानीं सुमहता कालेना नामित्रकर्शनं न प्राप्यो भवितामर्त्य लोके प्राकानुशासितः वक्ता कर्ता विता नान्यो धर्मस्याच्युतते भुवि सभायामपि वैरिञ्च्यां यत्र मूर्तिधरा र्त्रा वित्रा प्रवक्त्रा च भवता मधुसूदनां त्यक्ते महीतले देव विनष्टं कः प्रवक्षते तत्त्वं न सर्वधर्मज्ञ धर्मस्त्वद्भक्तिलक्षणः यथा यस्य विधीयेत तथा वर्णय मे प्रभो श्रीसुकमुवाच नित्यं स्वभृत्य मुख्येन पृष्टः स हरिहे प्रीतक्षेमायमर्त्यानां धर्मानाकसनातनां श्रीभगवानुवाच धर्म एष तव प्रश्नो नैः श्रेयस करो नृणां वर्णाश्रमाचारवतां तमोद्धवनिपोतमेम् इति स्मृतः कृतकृत्या प्रजाजात्या तस्मात् कृतयुकं विदुः वेतप्रणवयेवाग्रे धर्मोकं वृषरूपभधृ उपासतेत तपोनिष्ठा हंसं मामुक्तकिल्बिशाखां त्रेतामुखे मखाभाग प्राणान्मे कृतयात्रयी विद्याप्रादुरभूतस्य अहमासं त्रिवृण्मकः विप्रतृक्ष विट्सूत्रा मुखाभागोरुबाधजाः वैराजात्पुरुषाता य आत्माचारलक्षणाः गृहाश्रमो जगनतो ब्रह्मचर्यं क्रुधो मम वक्षस्थानान्वनेवाशो न्यासशीर्षणि संस्थितः वर्णनामां समानां च जन्मभूम्यनुसारिणीः आसन् प्रकृतयो नृणां नीचैर्नीचोत्तमोत्तमाः समोदमस्तपशौचं मद्भक्तिश्च दया सत्यं ब्रह्मप्रकृतयस्त्विमाह तेजो बलं धृतिशौर्यं तिथिक्षौधार्यमुद्यमः स्थैर्यं ब्रह्मण्यथैश्वर्यं क्षत्रप्रकृतयस्त्विमाह आस्तिक्यं दाननिष्ठो च अतम्भो भ्रमसेवनम् अधुष्टिरर्थोपचयेर् वैश्यप्रकृतयस्त्विमाहा शुश्रूषणं द्वि देवानां चाप्यमायय तत्र लब्धेन सन्तोष श्रोत्रप्रकृतयस्त्विमाह अशौचम् अनृतं स्तेयं नास्तिक्यं सूक्ष्मविग्रगः कामक्रोधस्य दर्शश्च स्वभावो देवसागिनाम् अहिंसा सत्यमस्तेयम् अकामक्रोधलोभत भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिकहान् द्वितीयं प्राप्यान् पूर्व्या जन्मोपनयनं द्विजहान् वसन् गुरुकुले धान्तो ब्रह्माधीतचाहुतः मे जटिलो ब्रह्मसूत्रकमण्डलून् जटिलोधौत स्ना भोजन होमेशो जबोच्चारे चाग्य न चिंध्यान को कक्षोपस्थता प्रेत नवकिरे जाम व्रततरस्वय अवकीर्णाप्यासो यूस्त्रिपी जपेद अग्न्यर्क आचार्य गोविप्र गुरोवृद्धसुरांशुशिके समाहितमुपासीत सन्ध्ये च यत वाग्जपन् आचर्यां विजानीयान्नाव मन्येत कर्हि चेत् नमर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरोः सायं प्रातरुपानीय वैश्यं तस्मै निवेदयेत निवेदयेत् यान्यदभ्यनुज्ञातम् उपयुञ्जीतसंयतः शुश्रूषमाण आचार्यं सदोपासीत नीचवत् यानसैयासनस्थाने नातिदूरे कृताञ्जलिः एवं वृत्तो गुरुकुले वसेद्भोगविवर्जितः विद्या समाप्यते यावत् विप्रव्रतमखण्डितं यत्यसौ सन्दसां लोकम् आरोक्ष्यन् गुरवे विन्यसे देहं स्वाध्यायार्थं बृहद्व्रतः अग्नौ गुरौ आत्मनि च सर्वभूतेषु मां परम् अपृथग्धीरुपासीत ब्रह्मवर्चस्व कल्मषः स्त्रीणां निरीक्षणस्पर्श संलापक्ष्वेलनादिकं प्राणिनोमितु नीभूतान् अगृहस्थोग्रतस्थ त्यजेत शौचमाचनम शौचमाचमनं मा स्नानं सन्ध्योपासनमार्जवं तीर्थसेवा जपो स्पृश्या पक्ष्यासम्भाष्यवर्जनं सर्वाश्रमप्रयुक्तोऽयं नियमकुलनन्दन मद्भावसर्वभूतेशो मनोवाक्याय संयमः बृहत्प्रतधरो ब्राह्मणोऽग्निरिव ज्वलन् मत् भक्तस्तीव्रतपसा दत्तकर्माश्योमलः अथनन्तरमावेक्षन् यथा जिज्ञासितागमः गुरवे दक्षिणां गुर्वनु मोदितः गृहं वनं वोपविशेत् प्रव्रजेत्वा द्विजोत्तमः आश्रमादाश्रमं कच्छेन्नान्यथा मत्परश्चरेत गृहार्तिसदृशीं भार्याम् उद्वकेत जुगुप्सितां यवीयसीं तु वयसा तां सवर्णाम् अनुक्रमात् इज्जात्ययनधानानि सर्वेषां च प्रतिग्रहोध्यापनं च ब्राह्मणस्यैव याजनं प्रतिग्रहं मन्यमानस्तपस्तेजोयशोऽनुधम् अन्याभ्यामेव जीवेत शिलैर्वा दोषधृक्तयोः ब्राह्मणस्य हि देहोऽयं शूद्रकामाय नेष्यते कृश्राय तपसे चेह शिलो जवृत्या परितुष्टचित्तो धर्मं महान्तं विरजं जुषाणः मय्यर्पितात्मा गृह एव तिष्ठन् नातिप्रसक्तसमुपैति शान्तिं समुद्धरन्ति विप्रं सीदन्तं मत्परायणम् तानुद्धरिष्ये न चिरात् आबद्भ्यो नौरिवार्णवात् सर्वासमुद्धरेत्राजा पितेव व्यसनात् प्रजागाम् आत्मानम् आत्मनो धीरो यथा गजपतिर्गजान् एवं वितो नरपतेर्विमाने नार्कवर्चसा विधूयेकाशुभं कृत्स्न इन्द्रेण सह मोदते सीधन् विप्रो मणिवृत्त्या पण्यैरे वा पदं तरेत् खड्गेन वा पदा क्रान्तो नस्ववृत्त्या कथञ्चन वैश्यवृत्या तु राजन्यो जीवेन्मृगयया पदीं सरेत्वा विप्ररूपेण नस्ववृत्त्या कथञ्चन शूद्रवृत्तिं भजे त्वैष्यश्शूद्रः कारुकटक्रियां कृश्रान्मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा वेदाध्यायस्वधा स्वाहा भल्यन्नाध्यैर्यतोदयं देवर्षि पितृभूतानि यजेत यद्रुच्चयोपपन्नेन शुक्लेनोपार्जितेन वा धनेना दनेना भृत्यान् न्यायेनैवाकरेत्क्रतोन् कुटुम्बेषु न सज्जेत न प्रमात्येत् कुटुम्ब्यपि विपश्चिन्नस्वरं पश्येत् अदृष्टमपि दृष्टवत् पुत्रधाराप्तबन्धूनां सङ्गमः पान्तसङ्गमः अनुदेहं वियन्त्येते स्वप्नो निद्रानुघूयता इत्थं परिस्पृशन्मुक्तो गृहेष्वतिधवद्वसन् न गृहैरनुभद्येत निर्ममो निरहङ्कृतः कर्मभिर्गृहैमेधीयै इष्ट्वा मामेव भक्तिमान् तिष्ठेद्वनं प्रजावान् वा यस्त्वाशक्तमतिर्गेः पुत्रवित्तैक्षणादुरः स्त्रैणैः कृपणधीर्मूढो ममाहमिति भद्यतेः अहो मे पितरौ वृद्धौ भार्याभालात्मजात्मजाः अनातामामृते दीनाः कथं जीवन्ति दुःखिताः एवं गृहाशया आक्षिप्त हृतयो मूढधीरयम् अतृप्तस्तान् अनध्यायन् मृतोऽन्धं विशते तमः इति श्रीभागवते महापुराणे एकादशस्कन्ते सप्तदशोऽध्यायः सर्वत्र गोपिका, गोपिकाजीवनस्मरणं गोविन्द गोविन्द